तृतीयाष्टके दशमप्रश्नः प्रारम्भः विज्ञानम् ओ... प्रज्ञानम् जानदभिजानद सङ्कल्पमानम् प्रकल्पमानमुपगल्पमानमुपगृप्तम् क्लुप्तम् श्रेयवसीय आयत्सम्भोदम् भोतम् चित्तकेदप्रभानाभान् सम्भा ज्योतिष्मागस्तेज स्वा नाथभगस्तपन्नभितवन् रोचनाराचमानशोभनः रो शोभमानः कल्याणः दर्शा दृष्टादर्शदा विश्वरूपा सुदर्शना आप्यायमानाप्यायमानाप्याया सूनुतेरा आपूर्यमाणा पूर्यमाणा पूरयन्ति पूर्णापौर्णमासी पूर राधामादप्रमाद आवेशयन्निवेशयन् संवेशनस्य कुमशान्तः शान्तः आभरणं वदनं संभवनं संबोधा बोधा अस्तुदं मिष्टदगमोदगस्तुंं कल्याणं विश्वरूपं सक्तमूर्णं जय रसदे रस्मिद्धं अरंभानं वन नरेश मदवि वस्तरस्वरं समिदा प्रदमिदा दीप्त दीप्यमानः ज्वलञ्जरितादपनं विदवन् संतवन्ना रौजनाराजमान शुम्भ शुम्भनाम वामा सुदासनते प्रसदा सोयमानाभिशोयमाना इतिनेह प्रभां तप्तिसप्तपिन्धी कान्ता काम्या कामजादायुष्मदीका मधुकास्तानमन्तानन्दामोदप्रमोदः आसादयन्सन्नः आभो विभो प्रभो शम्भोद्वित्रम् भविष्यन् विषयन् स्वर्गो लोकः स स्वांस हि यानोदि स्वान् सह मानः हृशमोदप्रमोदः अरनोरनत जाः पुंदरीको विष्वजित भिजित आद्रपिन्वमानोन्न वांतस बानिलावान सर्वोषदस्रं भरो महस्वान हेजित्काचरप्ताः सुल्मभा सुगस्टवा सरिस्वा सिसेरवा अजरासक मिष्टवा इदानी इंदानी मेधरिक्षप्रमजिरं आसन प्रिन्झा मुच्च्च ल्गढ्टि रात्रा श्brainatr stirr Shooting Rats curios handicap. प्रिर्पार्त रात्र श्क्वर्त शुण्यर्ध् चंत्रमार्द प्रिवतास आम्ार्ट, प्रिवती सुम्हां का दोर्य प्र्षवें चमां चा, पेकस्च रो processoons शुणज्ञा, प्रियपती स्विक त्रीगश्च लोकान्सं प्रजापदिस्वासादयङ्गरस्वध्वासीदुवस्वश्चन्द्रीगुश्चिरवासी त्वमेव त्वाम्भूयागुश्चेदृक् आदित्याभोगा तत्तेज्योतिष्ठे तेन ्रीष्मो दक्षिणः पक्षः पुरुषापृच्छाश्रेयः अपरवक्षाप्रेषम् अहोरात्राष्टकाः सर्गो लोकः यस्याम् दिशि महीयते तदा नमः आवहारिशोनुविवाहि ें मेच्छा अन्तरिक्षं मेच्छा पृथिवीम् मेच्छा पृथिवीं मेच्छा अन्तरिक्षं मेच्छा रिवं मेच्छा अह्ना प्रसार्या रात्र्या समुच रात्र्या प्रसारय अह्ना समच कामम् प्रसारय कामको समच गोद्भवस्वः को जोपरम् ब्रह्मक्षत्रम् यशो महद सद्यन्दभो नामृतम् चक्षश्रोत्रम् यागवेदा यदि वापा भगोभि वैश्वानुलो यदिभ्रजाभ्यो यजमानाय लोकम्भृत्यन्द्या ी स्मराज्ञी स्वराज्ञी अत्यश्रोतिः तपोहरोभाः अग्निलिन्द्रो बृहस्पतिः विश्वे देवाभवनस्य गोपाः हे मासर्वेशसान्दो सवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्पते स्वाहा ऋभुवे स्वाहा अधिपतये स्वाहाम्बतये स्वाहांहस्मत्या स्वाहात्याः ज्योतिष्मृत्या स्वाहा ज्ञे स्वाहा विराज्ञे स्वाहा सम्भ्राज्ञे स्वाहा स्वराज्ञे स्वाहा सुषा स्वाहा सूर्या स्वाहा चन्द्रोदे स्वाहा ज्योतिषे स्वाहा सर्वम् सर्पा स्वाहा कल्याणा स्वाहा अर्जुना स्वाहा कश्चिदेव पवमानायुरायुधा महीनधाराचन्द्रोषी अहिरजीर्णामतिसर्पदित्वजम् हत्यानक्रीडम् न सरत्तुषाहरिः मयामभिहे मृत्यवे हेत्वादिष्टम् गृह्णामि एष देत्यवे हेत्त्वा अपमृत्युमक्षन् सर्वान् वैदामे भक्षास्य मृतभक्षः मृत्युभेदस्यामृतमदः स्वगाकृतस्य मृतमदः क्ष्यामिद्रमास्वाजितेषुर्मे वा आ हृदये हृदयम्मयि अहमृदे ए अमृतम् ब्रह्मणि मायम्मे प्राणे श्रिदः प्राणोहृदये हृदयं मयि अहमृदे अमृतम् ब्रह्मणि सूर्यो मे चक्षुष्यदः तक्षदहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनधर्षिदः मनोहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि इशामे श्रोतिरे श्रुताः हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपोमेश्रिताः हेदो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि शरीरे श्रिताहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणिदयो मे लोमश्रिताः लोमानि हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि इन्द्रो मे हृदये श्रितः हृदये मयि अहमृदेये अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्निश्चितः मूर्धाहृदये हृदयम्मयि अहमृदेये अमृतम् ब्रह्मणि ईशान्यो मे मन्यो श्रितः मञ्जुरहृदये हृदयम्मयि अहमृदेये अमृतम् ब्रह्मणि आत्मा मम आत्मनिश्चितः आत्माहृदये हृदयम्मयि अहमृदेये अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागाद् पुनः प्राणः पुनरागोदमागाद् ईश्वानुराश्मिधर्वावृधानः अन्तस्य खद्मृतस्य गोपाः अजापतिर्देवानसृजता ते पात्मना सन्दिता अजायन्ता तान् व्यज्य यद्व्यद्यत् तस्माद्विद्यत तमवृष्ट्य यदवृष्टत तस्माद्वृष्टिः तस्माद्यत्रैते देवते हिप्राप्नुतः च हैवास्य तत्र पात्मानन्दितः वृष्टतस्य सैवामीमागूज्ञः अत्र एव सम्पन्ना सर्वेष् यत्कृतिष्मिति होश्यन्नपोपस्पृशेत् विद्युमे पाप्मानमिति अत हुत्त्वपस्पृशेत् दृष्टिमे पाप्मानमिति यक्ष्यमाणो वेष्टावास्यैते दे देवदेपात्मानन्दितः पृष्टदश्च प्रत्यहारिणिः प्रश्नान् प्रोच्यप्रतिहाय हरेहि रक्षन्द्याम् वादिम् पृच्छ आचार्यो माहैवाच वेदे स कस्मिन् प्रतिष्ठित इति फरोरजसीति कस्तद्यत्परोरजा इति एषवावस परोरजा इतिपदि केशोर्वाग्रजा इति स कस्मिन्द्वेष इति सत्य इति किं दत्सत्यमिति तप इति कस्मिन्नतप इति पर इति किं तत्परमिति प्राण इति मास्मत्प्राणमतिपृच्छमाचार्योऽ ब्रह्मचारी स वाचप्रक्षोदय्याम्बाधिः ब्रह्मचार्यप्राणमत्यप्रक्षः मोक्षा देव्यपदिश्य अहमुदाचार्याच्येयान् भविष्यामि व्योमा सा विक्रयसमवादिष्टेति अस्मा सा विक्रयण संवदेत स यो हवै सा विक्रयम् विदृषा सा विक्रय संवदते सञ्चयम् ददाति अन्वहवाः स्मासोदमञ्चयम् मन्यते अन्वस्मै श्रीस्तभो मन्यते अन्वस्मैतमबलम् मन्यते अन्वस्मैफबलम् गाणम् मन्यते स यदाः सञ्ज्ञानम् विज्ञानम् दर्शा तिष्ठेति एष एव अथ यदाः एष एव तत् एष केवतान्यहानि एष रात्र्यः अथैदाः चत्रः केतुर्दाता प्रदाता सविता प्रसविताभिस्त्रान् वन्देति एष एव तत् एष केवतेऽन्हामुहूर्ताः एष रात्रेः अथैदाः पवित्रम् भविष्यन् सह स्वान् इति एष एव तत् एषस्येवतेः एष मासाः अथैदाः अग्निष्टोममुख्याग्निरुतप्रजापतिः संवत्सर इति एष एव तत् एषः एव दे यज्ञः एष तवः एष संवत्सरः अथेदाह इदानीम् तदानीमिति एष एव तत् एषस्येव दे वेद विधिहत्पात्मानमेधि सर्वमायुरेदि अभिस्वर्गम् लोकञ्जयति नास्यामस्मिन् लोकेऽन्नम् क्षीयत इति पाप्मानमेति सर्वमायुरेति अभिः स्वर्गम् लोकञ्जयति नास्यामस्मिन् लोकेऽन्नम् क्षीयते एवम् वेद अहिनाहाश्वत्यः सावित्रम् विदान्तकार सः हिरण्मयो भूत्वा स्वर्गम् आदित्यस्य सायुध्यम् हुंसो हवैरन्मयो भूत्वा आदित्यस्य सायुध्यम् एवम् वेद देवभागो हस्व सात्रम् यदाञ्चकार प्रगुंसवागतिस्यमानाभ्युवाच सर्वम् पदगौतमो वेद सा वित्रम् वेदी थी, सहोवाच ऐषावागतीति थी, अयमहगुमसा वित्रः देवानामुत्तमो लोकः महाभिप्रति एतावतिह गौतमः यज्ञापवीतम् कृत्वाधोऽनुपपाद न मानमहिति स्वहोवाच माभैषीर्गौतम वितोभैते लोकैति तस्माद्यैकेजसा वित्रम् विदुः सर्ववेदे चित्तलोकाः श्रियो हवैसा वित्रस्याष्टाक्षरम् उदग्रश्रियाभिषिक्तम् वेद श्रिया हैवाभिषिच्यते फिर्निरिते अक्षरे सूर्यै ऋत्रीणि आदित्यै ऋत्रीणि एतद्वयिसा वित्रस्याष्टाक्षरम् उदग्रश्रियाभिषिक्तम् य एवम् वेद श्रिया हैवाभिषिच्यते तदेतदरुचाभ्युक्तम् ऋचोऽक्षरे परमे व्यो मन् तस्मिन् देवाधिविश्वे निषेदुः यस्तन्न वेद किमुदाकरिष्यतिस्वर्गे लोक एति यहद्विश्वा भूतानि सम्पश्यत् पात्र हविन्वमानः स्वर्गे लोक एति यःन्विश्वा भूतानि संपश्यन् यदेवम् वेद शोषो हविवाष्णेयमाधि हे हितावित्रम् विद्धि अयम् वै सर्गो अज्ञः पारयष्णुरमृधात्सम्भोध इति एष वा एष तपदि एहिमाम् विद्धि हैवेन्द्रवाच इयम् वा सर्गानिरेव या एतात्रयः तामधुकृतः यान्यहानि हे मधुवृषाः सयो ह स्येष्टाभूर्तम् जयन्दी अथयो वेद नीकाग्नो मिकर्वन्ति जयन्त्यस्येष्टा भूक्तम्णान्नामधेयानि वेदा आहोरात्रेष्वात्यमाच्छति सञ्ज्ञानम् विज्ञानम् दर्शा दृष्टेति एतावनुवाकोऽपक्षस्याहोरात्राणामधेयानि ति एवम्यानिमहोर्तेष्वात्यमाक्षति चेतुर्दाता प्रदा सविता प्रसविता शास्तानुमन्देति एतेन वाकामहोर्त्राणाम्नामधेयानि नमोहर्तेष्वात्यमाच्छति एवम् वेद यो हवार्धमासानाम् अञ्चमासानाञ्चनामधेयानि वेद नार्धमासे षणमासेष्वात्तिमाच्छति अवित्रम् भविष्यन् सह स्वान्ती या ऋणरुतेन वाकार्धमासानाञ्चनामधेयानि नार्धमासे षणमासेष्वात्तिमाच्छति एवम् वेद यो हवैयज्ञक्रतोनाञ्चनाञ्च संवत्सरस्य जनामधेयानि वेद न यज्ञकृतृसंवत्सरा क्लिमाच्छति अग्निष्टो मुख्यो निर्त प्रजापतिसंवत्सर इति एतेन वाकायज्ञक्रतोनाञ्चनाञ्च संवत्सरस्य जनामधेयानि एवम् वेद यो ह वै मुहूर्ताना अम् मुहूर्तानवेद न महूर्ताना अम् महोर्तेष्वात्यमाच्छति इदानीं तदानीमिति एते वै एवम् वेद अथो यथा क्षेत्रज्ञो भूत्वानुप्रविश्यान्नमत्ति एवमेवैतानुक्षेत्रज्ञो भूत्वानुप्रविश्यान्नमत्ति स एतेषामेव स लोकतामश्म्यते अपोमनम् मृत्युञ्जयति एवम् वेद कश्चित्थवा अस्माल्लोकात्प्रेत्य आत्मानम् वेद अयमहमस्मीति कश्चित् सल्लोकन्न प्रतिप्रयानादि स्वल्लोकम् न प्रतिप्रजानाति अथयो हैवेतमद्यकुंसा वित्रम् वेद स एवास्माल्लोकात्प्रेत्य आत्मानम् वेद अयमहमस्मीति स स्वल्लोकम् प्रतिप्रजानाति एषौ हे वैनन्दसा वित्रः स्वर्गम् लोकमभिवहति होरात्रैवते निद्रात्राया दीक्षिषदाय प्रथमुति सा निहानेवम् विदुषः अनुस्मिल्लोके सेव चिन्तयन्ति गीतगो हैवसे वधिमनुपरैति अथयो शैवैतम् वेद तस्य शैवाहो रात्राणि अमुष्मिल्लोके सेवयन्ति अधीतगो हैवसे वधिमनुपरैति हरद्वाजो हत्रिभिरायुद्धमवाच तगोहजेशयानम् इन्द्रपवत्रोऽवाच हरद्वाच इत्युत्थमायुद्ध्याम् ब्रह्मचर्यमे ीम् चकारा ते शाकुंहैकैकस्मान्मुष्टिनाददे अहोवाच भरद्वाजे च हे दावा एते मन्दावैवेदाेदत्वा एतेरायुर्भिरन्वबोधाः रथतरथनोक्तमेव ये हेमम् विद्धि अयम् वैसर्वविद्येति तस्मै हैतमग्निपुंसा विक्रमवाचा तगुंसविधित्वा मृद भूत्वा स्वर्गम् लोकमियाय आदित्यस्य सायुध्यम् अमृतो हैव भोगमेति आदित्यस्य साहित्यम् एवम् वेद एषो एव त्रयी विद्या यावन्तमो हवे त्रय्या विद्यया लोकम् जयति तावन्तम् लोकम् जयति एवम् वेद अग्नेर्वा एतानि नामधेयानि अग्नेरेव साहित्यगुस एवम् वेद आयोर्वा एतानि नामधेयानि आयोरेव एवं वेद इन्द्रस्य वा एतानि नामधेयानि इन्द्रस्यैव सायुजोषलमाप्नोति एवं वेद बृहस्पतेर्वा एतानि नामधेयानि बृहस्पतेरेवसायुज्यगोषलोकतामाप्नोति एवम् वेद प्रजापतेर्वा एतानि नामधेयानि प्रजापतेरेवसायुज्यगोषलोकतामाप्नोति एवं वेद ब्रह्मणो वा एतानि नामधेयानि ब्रह्मण एव सायुज्यगोषलोकतामाप्नोति एवं वेद स वा एषोक्षो वायुरेव तस्याज्ञर्मः सज देते तस्मात् सा भित्रः इति तृतीयाष्टके दशमप्रश्नः समाप्तः